धिः कष्टौ कुमारौ सुदलित वपुषौ मल्लधीरौ कठोरौ न द्रक्ष्यामो गजाम स्वरितमिति जने भाषमाणे तदानीम् चाणूरम् तम् करो ब्राह्मण विदलदसुम् कोतयामासितो्याम् पिष्टो मुन् नुष्टिकोऽपि हलिना नष्टशिष्टैर् ददावे